हरि ओं श्री सीतारामचन्द्राभ्यां नमः अथ श्रीमदध्यातरामायणे किचकिन्धाकाण्डे अष्टम सर्गः श्रीमहादेव उवाच अथ ते कौतुकाविष्टा सम्पातिं सर्ववानरः पप्रच्छु भगवन्ध्रूहि सम्मुदन्तं त्वमादितः सम्पातिः कथयामास वृत्तान्तम् पुरा कृतम् अहम्पुरा जटायुश्च भ्रातरौ रूढ यौवनौ बलेन दर्पितो आवाम् बलजिज्ञासया खगौ सूर्यमण्डलपर्यन्तम् गन्तुमुत्पतितौ मदात् बहुवियोजनसहस्रम् गतो तत्र प्रतापितः जटायुतं परित्रातुम् पक्षे आच्छाद्य मोहतः स्थितोऽहम् रश्मिभिः दग्ध पक्षोऽस्मिन् विन्ध्य मूर्धनि पतितो दूरपतनान् मूर्छितोऽहम् कपीश्वरः दिनत्रयात् पुनः प्राण सहितो दग्धपक्षकः देशम् भागिरि कूटान् वा न जाने भ्रान्तमानसः जा शनयोन्मील्य नयने दृष्ट्वा तत्राश्रमम् शुभम् शनैः आश्रमस्य समीपम् गतवानहम् चन्द्रमा नाम मुनिराट् दृष्ट्वा वा माम् विस्मितो वदेत् सम्पाते किमिदम् तेद्य केन वा कृतम् जानामि त्वामहम् पूर्वम् अत्यन्तम् बलवानसि दग्धो ते पक्षो कथ्यतां यदि मन्यसे तथा स्वचेतितं सर्वं कथयित्वादि दुःखितः अब्रवम् मुनिशार्दूलम् दहेयं दाववन्निना कथं धारयितुं शक्तो विपक्षो जीवितम् प्रभो इत्युक्तोऽथ निर्वीक्ष्य मां देवार्द्र विलोचनः शृणुवत्स एवचो मेद्य देह मूल दुख देभव कर्म, कर्म प्रवर्तते दुद्ध्या अहंकार स्ना सै अद्याभव जड़ाया सुधा युक्त तत्ता यिंड वत्सा तेन देह सेम्या देहश्चेत नवान् भवेत् देहोऽहमिति बुद्धिः स्यात् आत्मनोऽहं कृते बलात् तन्मूल एष संसारः सुखदुःखादिसाधकः आत्मनो निर्विकारस्य मिथ्यातादात्म्यतः सदा देहोऽहम् कर्म कर्ताहम् इति सङ्कल्प्य सर्वदा जीव करोति कर्माणि तत्फलै बध्यते अवशः ऊर्ध्वाधो भ्रमते नित्यम् पाप पुण्यात्मक स्वयम् कृतम् मयाधिकम् पुण्यम् यज्ञदानादिनिश्चितम् गत्वा सुखम् भोक्ष्य इति सङ्कल्पवान् भवेत् तथैव अध्यासुतस्तत्र चिरम् भूत्वा सुखम् वहेत् कीणपुण्यपदत्यर्वाक् अनिछन्दर्म चोदि पति मंडले चेन्द संयुत भूमो पतिहियादो त्रिवा चिन्ह भूत चतुर्वधम भोज्यम पुरषर्भुज्यत रेतो भूत स्त्री यो निर संयुक्त जलायु परिवेटितम् दिने नैकेन कललम् भुत्वारूढः समाप्नुयात् तत् पुनः पञ्चरात्रेण बुद्बुदाकारतामियात् सप्तरात्रेण तदपि मासपेष्वी समाप्नुयात् पक्षमात्रेण सा पेशी रुधिरेण परिप्लुता तस्या एवं कुरोत्पत्तिः पञ्चविंशतिरात्रिषु ग्रीवाशिरश्च स्कन्धश्च पृष्ठवंश तथोदलम् पञ्चधाङ्गानि चैकैकम् जायन्ते मास क्रमात् पाणिपादौ तथा पार्श्वे कटि जाननु तथैव च मासद्वयात् प्रजायन्ते क्रमेणैव न च अन्यथा ङ्गानां सन्धर्य क्रमात् सर्वाङ्गुल्य प्रजायन्ते क्रमान् मासः चतुष्टये नासा कर्णो च नेत्रे च जायन्ते पञ्चमासतः दन्तपङ्क्ति न खागोह्यम् पञ्चमे जायते तथा अर्वाक्षण्मासदन्तच्छिद्रं कर्णयो भवति स्फुटम् पयुर्मेढ्रम्भस्थं च नाभिश्चापि भवेन्दृणाम् सप्तमे मासि रोमाणि शिरे केशा तथैव च विभक्तावयवत्वं च सर्वम् सम्पद्यतेष्टमे जठरे वर्धते गर्भ त्रिया एवम् विहङ्गमः पञ्चमे मासि चैतन्यम् जीव प्राप्नोति सर्वशः नभिः सूत्राल्परन्ध्रेण मातृ नसारत है, है, सर्वश है, ना ना न सारतः वर्धते गर्भगपिण्डो न म्रियेत स्वकर्मतः स्मृत्वा सर्वाणि जन्मानि पूर्वकर्माणि सर्वशः जटरानतप्तोऽयम् इदं वचन अब्रवीत् नानायोनि सहस्रेषु जायमानोनुभूतवान् पुत्रदारादिसम्बन्धम् कोटि च पशुबान्धवान् कुटुब भरनाशक् न्याय न्या धनार्जनं, धनर्जनम कर विष्णु चिंता स्वप्ने दुर्भग इं तत्फल भुंजे गर्भ दुख तरश्वते शाश्वतवे तृष्णा समन्वित न कार्याण्यितमन बहुधा दुखम अनुभूय स्वकर्मतः कदा निष्क्रमणम् मे स्यात् गर्भान् निरयसन्निभात् इत ऊर्ध्वम् नित्यमहम् विष्णुम्बेवानुपूजये इत्यादि चिन्तयन् जीव यो नियन्त्र प्रपीडितः जायमानोति दुःखेन नरकातकीयथा पुतीवर्णान्निपतितः कृमिरेष इवापरः ततो बाल्याति दुःखानि सर्व एवम् विभुञ्जते त्वया चैवानुभूतानि सर्वत्र विदितानि च न व्रणितानि मे गृध्र यौवनादिषु सर्वतः एवम् देहोऽहमित्यस्मात् अध्यासम् निरयादिकम् गर्भवासादिदुःखानि भवन्त्यभि निवेशतः तस्माद्देहद्वयादन्यन् आत्मानम् प्रकृते परम् ज्ञात्वा देहादि ममताम् त्यक्त्वात्म ज्ञानवान् भवेत् जाग्रदादि विनिर्मुक्तम् सत्यज्ञानादिलक्षणम् शुद्धम् बुद्धम् तदा शान्तम् आत्मानम् अवधारयेत् चिदात्मने परिज्ञाते संभवे न ते मोहे देहे पततु आरब्ध योगिनो न हि वा सुखम् वा ज्ञानसम्भवम् तस्माद्देहेन सहितो यावत् प्रारब्ध संशय हे तावत् तिष्ठ सुखेन त्वम् द्रुतकञ्चुक सर्पवत् ृणु परम हित्रेतायुगे दाशरथी भूत नारायण व्यय वधार्थाय सेंडका नागमिष्य सीतया भार्य साधम लक्ष्मण समन्व तमें जनक्रात्रोभ्या वन रावण चोर वीला लङ्कायाम् स्थापयिष्यति तस्या सुग्रीवनिर्देशात् वानरापरिमार्गणे आगमिष्यन्ति जलधि तीरम् तत्र समागमः त्वया तैः कारणवशात् भविष्यति न संशय तदा सीतास्थितिम् तेभ्यः कथयत्व यथार्थतः तदैव तव पक्षो द्वौ उत्पत्येते पुनर् उन्नवौ सम्पाति उवाच बोधयामास मां चन्द्र नामा मोनिकुलेश्वर पश्यन्तु पक्षो मेधातो नूतनौ अतिकोमलौ स्वस्थैव गमिष्यामि सीतां द्रक्ष्यत निश्चयं यत्नम् कुरु ध समुद्रस्य विलङ्घने यन्नाम स्मृतिमात्रतोपरिमितम् परिमितं निधिम् तीत्वा गच्छति ती दूर्जनोऽपि परमम् विष्णो पदम् शाश्वतम् तस्यैव स्थितिकारिणस्त्रीजगताम् रामस्य भक्ता प्रिया यूयम् किम् न समुद्रमातृतरणे क्ताय कथं वानर इति श्रीमदध्यात्मनारायणे मामैस संवादे किष्किन्दाकाण्डे अष्टमसर्ग